हरि ओसीता रामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायण युद्धकाण्डे एकविंशति अधिकशततमः सर्गः श्रीरामस्य अयोध्यायां गन्तुम् बुध्यमनम् तदाज्ञा विभीषणेन पुष्पकस्य आनयनं च तां रात्रिम् उषितं रामम् सुखोदितं रिन्दमम् अब्रवीत्राञ्जलिर्वाक्यम् जयं प्रष्टा विभीषणः भी स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च चन्दनानि च माल्यानि दिव्यानि भी विविधानि च अलङ्कारविदश्चैता नार्य पद्मनि भीक्षणः उपस्थिता सं विधिव स्नापयिषन्ति राघव एवम् उक्तः सुकाकुत्स विभीषणम् हरिं सुग्रीव मुख्यान्तं स्नानेन उपनिमन्त्रय शततां यदि धर्मात्मा सुखोचितः सुकुमारो महाबाहु भरत सत्यसंश्रयः तं विना कैके पुत्रं भरतं धर्मचारिणं न स्नानं बहुमतं वस्त्राण्याभरणानि च एतत् प्रति गच्छाम तां अयोध्यां गच्छतो हे च पन्थाः परमदुर्गमः एवम् उक्तः सुखाकुत्थं पत्युवाच विभीषणः अह्ना त्वां प्रपयिष्यामि तां पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् मम भ्रातु कुबेरस्य रावणेन बलीयसा वृतं निर्जित्य संग्रामे कामगं दिव्यम् उत्तमम् तदर्थं पालितम् चेदम् तत्तिष्ठत्य तुलविक्रमः तदिदम् मेघसङ्काशं विमानं यः तिष्ठति येन यास्यति याने त्वं अयोध्यां गतद्रहं यदि स्मरसि मे गुणान् वसतावद्य यद्यस्ति मयि मयि सौरुधम् लक्ष्मणेन सह भ्रात्रा वैदेह्या सह अर्चितश्च कामयम् ततो राम गमिष्यसि प्रीतियुक्तस्य भीतां स्वसैन्यासु सूरग्णः सत्क्रियां रामते गृहाण तम् अयोध्यताम् प्रणयाद् बहुमानाच्छ सौहार्दे च राघवे प्रसादयामि प्रेषोऽहं न खल्व ज्ञापयामि ते एवम् उक्ता सदोराम प्रत्युवाच विभीषणम् रक्षसां वा नराणां च सर्वेषामेव शृण्वताम् पूजितोऽस्मि त्वया साचिव्येन परेण च सर्वात्मना च चे चेष्टाभिः सौहार्देन परेण च न तन्न कुर्यां ते वचनं राक्षसेश्वर सन्तु मे भ्रातरं द्रष्टुं भरतं तरते मनः मां निवर्तयितुं योऽसौ चित्रैकूटम् अपागतः शिरसा याचतो यस्य वचनं न कृतं मया कौसल्याञ्च सुमित्रां च कैकेयीं च यशस्विनीं गुहं च सुहृदं चैव पौरान् जानपदै सह अनुजानीहि मां सोम्य पूजितोऽस्मि विभीषण मधूर्न खलु कर्तव्य सखे त्वां चानुमानये उपस्थापय मे शीघ्रं विमानं राक्षसेश्वरे कृतकार्यस्य बेवास कथं चादय सम्मतः एवम् मुक्तः सुरामेण राक्षसेन्द्रो विभीषणः विमानं सूर्य संकाशम् अजुहवे स्वरान्वितः ततः काञ्चन चित्राङ्गम् वैदुर्य मणिवेदिकम् कूटागारी परिक्षिप्तम् सर्वतो रजतप्रभम् पाण्डुराभिः पताकाभिः ध्वजे च समलङ्कृतं शोभितं काञ्चिनिर्हर्म्ये हेम पद्मविभूषितै प्रकीर्णं किंकिणी जालै मुक्तामणिगवाक्षकम् घण्टाजाले परिक्षिप्तम् सर्वतो मधुरस्वनं तं मेरुशिखराकारं निर्मितं विश्वकर्मणा बृहद्भिर्भूषितं हर्म्ये मुक्ता रजतशोभितै सले स्फटिकचित्राङ्गै वैदुर्यैश्च वरासने महारातर नोपेतै उपपन्नं महाधनैः उपस्थितम् अनधृश्यं तद्विमानं मनोजवम् निवेदयित्वा रामाय तथो तत्र विभीषणः तत्पुष्टकं पुस्तकम् कामगमन् उपस्थितम् भूधरसन्निकाशम् दृष्ट्वा तदा विस्मय मा जगाम रामस सोमी त्रि उदार स त्व इत्याख्ये श्रीमद् रामायणे वाल्मीकि यादिका वे युद्धकाण्डे